मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायं सेवन् योगस्थितिवर्णनयोगम् श्रीगणेशाय नमः दक्ष उवाच स्थितिं वदमः योगिन् जीवन्मुक्तस्य सौख्यतां शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् कायिकम् वाचिकम् मानसिकम् सांसर्गिकम् प्रभो कर्म योगीकृतं सर्वम् कीदृशम् तस्य का गतिः उवाच जीवन्मुक्तस्वयं योगी स्वेच्छाचारी भवेत् सदा प्रारब्धप्रेरितः साक्षाद्वर्तते नित्यमादराद स्वयं ब्रह्मणि संस्थश्च बिम्बं चित्ते प्रतिष्ठति योगिनस्तत्कृतं सर्वं न कदा बन्धतं भवेद नरवत्सर्वकर्तापि तथापि दोषवर्जितः ब्रह्मणि ब्रह्मभूतत्वात् शुभाशुभविवर्जितः प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेद तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकं सदा शौजसमायुक्तो नित्यं धर्मपरायणः तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् अथवा पूर्वजेनैव प्रारब्धेन नियन्त्रितः पापानि नित्यमानन्दात् प्रकुर्याद्विविधानि सह ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् मद्यपानादिकं चौर्यं प्रकुर्याद्दैवयोगतः एवं पापसमाचारो यदि तिष्ठति मानवः योगीपापफलं नैव भुनक्रि नरवत्कता पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापदे पारितं योगिना तत्र तेन किञ्चित् कृतं न च मरणे या मदिप्राप्ता प्राप्ता तादृशीं लभदे गतिं नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते इदं संशयनाशार्थम् कथितं ब्रह्मणः योगिनां कर्मजं सर्वं माहात्म्यं ब्लेशदो मया योगी योगसमायुक्तो न पापानि कदाचन चरदि धर्मनिष्ठः लोकोद्धारकराः सर्वे योगी नः परिकीर्तिताः न चरन्ति पदा पापमहिंसादि समन्विताः फलहीनस्वभावेन धर्मं चरति नित्यदा योगी लोकोपकारार्थम् स्वयं ब्रह्मपरायणः कदाचित्पूर्वसंस्कारात् पापं तेन कृतं परं न तत्र पापयुक्तोसौ तदर्थो वर्णितः पुरा प्राणिनां योगी दुःखदायकमाचरेत पापं पापसमायुक्तो न भवेन्निश्चितं पुरा सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा पुण्येन सुख विश्वं भवति तच्चरेद प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमञ्जसा योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानदः यतते ते जन्मसुप्राज्ञस्तदा योगी भवेन्नरः तस्य प्रारब्धकं दक्ष कुदो दुर्बुद्धिदायकं भवति महायोगी धर्मयुक्तो भवेत् सदा अध योगीजनानां ते स्थितिं वदामि सर्वदा प्रमयुक्तो यथा योगी भ्रान्दो नैव भवेत्कदा साधयित्वा महायोगं चित्तनिरोधकारकं पञ्चविधं परित्यज्य चित्तं योगी भवेन्नरः चित्ते चिन्तामणिं ज्ञात्वा स चित्तः सहसा गतः तदाकार स वै तत्र ब्रह्मणि संरतः प्रारब्धं नास्ति भोगदम् शास्त्रसम्मतं यदा कठयुधो योगी भवेत्प्रारब्धचालकः देहपातम् प्रकुर्या चेदात्महत्याम् लभेन्न च आयुषा संयुतो वापि देहं त्यजदि निश्चितं तथापि योगसंयुक्तो न देहं त्यजति प्रभुः न प्रारब्धमतिक्रम्य करोति किञ्चिदञ्जसा शान्तियुक्तस्वभावेन तिष्ठत्यत्र न संशयः यद्भावि मायामोहविवर्जितः देहपादेन किं ग्राह्यं देहरक्षणतस्तथा रचितं गणनाथेन सदा भवतु तादृशम् एवं निश्चित्य चित्तेन शान्तियुक्तस्वभावदः आचरेद्योगसंयुक्तस्वधर्मे संस्थितां क्रियां वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा तदा स्वधर्मजं कुर्यात्कर्म निःसङ्गभावदः कर्म कर्मी कुदो भवद व्यवस्था संभवं कर्म कृतं भवति न ह्यपि यदि कर्मपरित्यज्य तिष्ठेद्योगपरायणः तदा देहनिपातेन युक्तो भावेन संशयः अन्नभक्षणरूपं यद्भवति कर्मनिश्चितं जाग्रत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथं क्रियतेनेन यत्किञ्चित् सा क्रिया परिकीर्तिता अधः कर्ममयो देहस्तेन धर्मं समाचरेत देहत्यागे समुद्युक्तो यदि योगी भवेत्प्रभो सहने द्वन्द्वभावस्य न समर्थः स वैस्मृतः अशान्ति योगहीनो यथा नरः तथा द्वन्द्वं समालोक्य सहनेन समर्थकः गणेशेन कृतं तस्येच्छया सर्वं च च्या यद्भवेद् भवदुतादृशं सर्वं सहे नित्यं सुशान्तिगः स योगी शान्तिहीनो न प्रभवेत् क्वचिदञ्च स महाश्रेष्ठः पावनः सर्वदेहिना वर्णाश्रमस्थो यो योगी भवेत् स ब्रह्मार्पणतया कुर्यात् हृदि ध्यात्वा गजाननं यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेद तमक्रियं समालोक्यान्ये त्यजेयुःस्वधर्मकम् अधो लोकोपकारार्थं योगी कर्म समाचरेद अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः सर्वेभ्यश्चाधिको योगी कुर्यात् कुर्यात्सत्कर्म धर्मदम् तादृशम् कर्म, धर्म कर्म सर्वेऽपि करिष्यन्ति विशेषतः तेन प्रामाण्यमानन्तात्कृतं कर्म प्रजापदे तदेव सर्वलोकाश्च मान्यं कुर्वन्ति निश्चितम् ब्रह्मार्पणतया कर्मबन्धतं न भवेत्कदा ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः योगिभिश्च कृतं कर्म लोकसङ्ग्रहकारणात् असकृतमनसा नित्यम् नैमित्तिकं न बन्धतं सदा ब्रह्ममयत्वेन तेन किञ्चित् कृतं न च देहस्वभावजो भावो भवेदस्य निरन्तरम् अन्यं प्रवक्ष्यामि ये निन्दन्दितुवन्दितं योगिनं पापभोक्दारो भवन्ति पुण्यभोगिनः योगिना यत्कृतं पापं तत् नक्षमं न क्षमं कदा निन्दकांस्तत्समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा योगिना यत्कृतं पुण्यं तदेव तं न संस्पृशेद स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत्स्वभावजम् अदो न योगिनां निन्दां कदा कुर्याद्विचक्षणः सेवां समाचरे तेन सौख्ययुतो भवेद् वने यदिष्ठितो योगी प्रारब्धेन नियन्त्रितः फलादिगं तत्र भुञ्चन् शान्त्या तिष्ठेत्स नित्यदा तत्र निन्दाकरस्तस्य तथा सेवाकरा न च एक एव महायोगी शुभाशुभं समाचरेत् तदेव देहपादेश्य योगिनश्च मृदं भवेद शुभाशुभं निराधारमुपोषणसमन्वितं ये दत्ते कथितं दक्षब्रह्मीभूतस्य चेष्टितं कर्मयोगमयं पूर्णं श्रवणाच्छुभदं भवेद अधयोगं प्रवक्ष्यामि ज्ञानात्मकमहं परं योगिभ्यः सुखदं पूर्णं शान्तियुक्तं विशेषदः देहकर्मात्मकः प्रोक्तस्तत्र योगं समाचरेद ब्रह्मार्पणतया कर्म चाचरन् शान्तिधारकः ज्ञानम् स्फूर्तिमयं प्रोक्तं हृदितिष्टदि सर्वदा विवेकात्ममयं तत्र ज्ञानयोगं समाचरेद् हृदि यद्यद्भवे ज्ञानं नानायोगार्थसौख्यदम् अथवा विषयार्थानां बोधकं तत्स सन्ध्यगेद उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकं ब्रह्मसौख्यप्रदं ज्ञानं योगभूमिप्रभावचम् उपाधिसंयुतं चैकमनुपाधियुतं परं तत्यक्त्वा योगसंयुक्तो भावेद्योगी महायशः ज्ञानानां सकलानां च योगे ज्ञानमयस्मृतः योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावदः ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवत नानाभ्रान्तिकरं हृत्सं त्यक्त्वा ब्रह्मपरो भवेद अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितं शान्ति युक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः न कर्ताम् कदाचिद्वै कारयित्वा न निश्चितं मायामोहयुधा ते वदन्ति कर्मकारिणम् अहं साक्षी शरीरस्य यद्देहेन कृतं भवेद् तन्मया न कृतं क्वापि ब्रह्माह्वं परतः परः यद्यस्फूर्तिर्भवेन्मे वै सा मायाभ्रान्तिदायिका न संस्थितो जीवः सदा साक्षिस्वभावदः न मोहेन समायुक्तो न कदा मोहवर्जितः मायया मां वदन्द्येव ह्ययोगिनो न संशयः एवं सदा महायोगी साक्षिवत्संस्थितो भवेद हृदयज्ञानयोगस्त्यक्त्वा स्फूर्ति भवं भ्रमम् सर्वत्र रसहीनं यन्मनस्तस्य महात्मनः शान्त्यायुक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा येष ते योगो ज्ञानात्मगो विशेषतः साक्षिवदेक संस्थः स मया अतः परं समं योगम् शृणु स्थितिपरायण यम् ज्ञात्वा ब्रह्मभूदो यः शान्तिहीनो भवेन्न सः देहकर्मत्रयस्तत्र कर्मयोगम् समाचरेत् मनोविवेकरूपं तु साक्षित्वम् तत्र सञ्चरेत् अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदं द्वन्द्वरूपं विशेषेण तस्य वक्ष्यामि रूपकं देहकर्ममयप्रोक्तो विवेकर्मवर्धितः द्वन्द्वं ज्ञात्वा महायोगी समयोगं समाचरेद देहे कर्ममयोऽहं तु हृदि साक्षी उभयोर योगभावेन भवति किञ्चिदञ्जसा यदा विवेकहीनश्चेद्देह किं तु करिष्यति देहहीनं मनस्तद्वत् ज्ञानदं कस्य वा संस्थितोऽहं तदात्मकः उभयत्र तदस्वस्वव्यापारं। स्वस्व्यापारं कुरु तः देहे कर्ममयोऽहं वै हृदि विवेकधारकः द्विविधाम्रच्यता मायां सदानन्दनधर्मकः तयो समानभावेन संस्थितोऽहं न संशयः अनुपाधेरुपाधेश्च वर्जितो ब्रह्म संज्ञितः अतत्समं समाश्रित्य बाह्यान्तरैकभावतः यादृशं संस्थितं ब्रह्म तादृश्यं तत्र चाचरेद देहे कर्मकरो भूत्वा कृदिसाक्षिमयो भवेद उभयं तत्परित्यज्यानन्दावस्थां समाचरेद यद्यदुभयभावाख्यं नानाभेदमयं परं तत्र योगमयो भूत्वा तिष्ठेदानन्दसंयुधः आनन्दानां समायोगे ब्रह्मानन्दः प्रकीर्तिदः उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः मदीयसङ्गयोगेनोभयं प्रवर्तते सदा उभयं चाचरेत्सर्वमुभाभ्यां वर्जितोऽपि सः इयमानन्दरूपाख्या कथिता योगिभिः पुरा ब्रह्मेभूतः समास्थाय तिष्ठेत्तां शान्तिः संयुधः अधः परं प्रजानाथावस्थां शृणुसुखप्रदां सहजाख्यां महायोगी चाचरेत्तां विशेषतः देहकर्ममहप्रोक्तस्तत्र योगं समाचरेद ब्रह्मार्पणतया नित्यं कर्मणां योगि सत्तमः हृदि साक्षित्स्वभावेन तिष्ठे तयोः समभावं समाश्रित्य त्रिशूत्रैदं प्रकीर्तिदम् तेषु विस्मृतिभावेन भ्रान्त्या वा विस्मृतं भवेद् विपरीतं भवेद्वापि तथ खेदं न धारयेद त्रिविधम् माययायुक्तं पराधीनं प्रकीर्तितं तुल्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा तुर्येच्च यात्र भूतं चलत्यत्र न संशयः स्वस्वप्रारब्धसंयुक्तं सदा भ्रान्तमिव स्थितं न कस्याहङ्कृदिष्टस्य तुरीयस्य कदाचन यादृश्यं कुरुदे कर्म तादृशं भलमश्नुदे विस्मृतोहं स्थितिं परां योगरूपां च तुर्येन प्रेरितः सर्वधारिणा अथवा ज्ञानमोहेन विपरीतं कृतं मया त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र प्रारब्धारकम् प्रोक्तं तुरीयं नात्र संशयः तस्येच्छया च तदेवं योगदम् भवेत् पराधीनोऽहमत्यन्तं तुर्येच्छया समन्वितः करोमि कर्म साक्षित्वमानन्दम् वानसंशयः सदा स्वाधीनभावेन तिष्ठति ब्रह्मतुर्यगं तुरीयैके लकं प्रोक्तं तस्य किं बन्धनं भवेद् यज्जातं तत्कृतं तेन तुरीयेण न संशयः तत्र कुत्रस्ति दोहं तु स्वेच्छया क्रीडति प्रभुः इयं तु सहजावस्था कथिता प्रजापदे प्रजापते यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो यत्कृतं सहजातेन स्वयमेव प्रवर्तते योगस्तेन समाख्यादा सहजा, दे योगस समाख्या सहजा तुल्यसंज्ञा अधः परं ब्रह्मभूतं स्वानन्दाख्यं प्रकीर्तितं तत्र योगस्वरूपाख्यां स्थितिं शृणुसुखप्रदां स्वाधीनं तुल्यभावाख्यं पराधीनं त्रिधा मदम् तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु त्रिविधं केलरूपं तुल्यकेलक उच्यते तयोर्योगे स्वानन्दस्तो भवेन्नरः ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेद स्वाधीनं तु पराधीनं मायाह्युक्तं न संशयः योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेद तेषां संयोगरूपेण तिष्ठे तेषु महात्मवान् कर्मयोगं समाश्रित्य देहचेष्टां समाचरेद ज्ञानयोगं तथाश्रित्य साक्षित्वं चरेद्बुधः समयोगम समाश्रित्य आनन्दम् आचरेत् परं सहजं समाश्रित्य विपरीतेन शोकभाक चतुर्भिः संयुदो भूत्वा चतुर्भिर्त्वर्जितस्तथा तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा अवस्था निजरूपेदु कुतो वस्ता प्रधारकः योगे योगमयी व्यवस्थाते ते प्रकीर्तिता चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता योगे योगेभीष्टां समाश्रित्य शान्तिहीनो भवेन्न सः अधुनाशृणुयोगस्थामवत्तां द्वितीयां पराम् अयोगधारिकां पूर्णाम् सदा निवृत्तिदायिकां ब्रह्मणिग्ब्रह्मभूतो यो योगीतां संश्रयेत्परां यदा निवृत्तिसंयुक्तशान्तिहीनो भवेन्न सः ब्रह्मणिग्ब्रह्मसंस्थं तन्नगदं न गदं पुनः मायायां ब्रह्मभूतो योऽवस्थाया धारभक्कुदः यत्कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेद् मायामयं विनिश्चित्य पञ्चकं पञ्चकेषु गं नाकं पञ्चकगच्छे द्वौ ततस्तत्कृतमञ्च मयि प्रदृश्येदाधार्य निवृत्तिगो भवेद् जीवनं मरणं जन्मयोगो योगात्मिका परा अवस्था मे कुतो माया मोहयुक्तं स्मृतं बुधैः अधयोगमयीं पूर्णामवस्थां शृणुमानद संयोगा योगहीनां तां यया शान्दो भवेन्न ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परं पञ्चकं च कुदोभादि मायाहीनमयोगकं विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा विधिनिषेधहीनं तु तदेवं जायते मुधा देहेन कर्मयोगश्च ज्ञानगोकृतिजायते दे। उभयत्र समश्चैव तुल्येषु सहजात्मकः सर्वसंयोगभावेषु स्वानन्दाख्यप्रवर्तते निवृत्तिषु ह्ययोगाख्यो योगेषु शान्तियोगकः एवं नानाविधं योगं समास्थाय महामतिः योगी शाध्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् योगस्थितिसमाख्यादा ब्रह्मीभूतसुखप्रदा अनेन विधिना देहनिर्वाहो योगिनां भवेद भवेदवर्णाश्रमस्थितो योगी चाचरे स्थितिमुत्तमां लोकसङ्ग्रहकार्यार्थमसक्तस्तद्भलादिषु यदा वर्णाश्रमं त्यक्त्वा पञ्चमाश्रमधारकः न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः विनायको भवेत् सदा यद्यत्कुर्यात् स तत्सर्वं योगरूपं भवेत् सदा यदि स्थितिसमायुक्तो वेदादिषु प्रमाणदः तदा विधियुधसोऽपि भवेत् पश्य प्रजापदे यथा स्थितिविहीनोऽयं तिष्ठेत् सङ्कथितं परं वेदेषु स निषेधेन तदा युक्तो भवेत्परः योगी योगीस्तिहीनो यथा रुचिवर्णाश्रमान् परित्यज्य द्विनायको यथा सान्ध्या नित्यं चरेत्सर्वं मनसीप्सिदमञ्जसा विधिनिषेधहीनश्च ब्रह्मणि रसधारकः यदत्सर्वं समाख्यादम् योगिनां चेष्टिदं महद ब्रह्मभूतात् परं पूर्णं चरेदेवं निरन्तरम् शृणुयाद्यः पडेद्वापि स सर्वं हीप्सितं लभेद अन्दे योगमयो भूत्वा तिष्ठेक्ष गणपेरतः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्ममुद्गले महापुराणे नवमे खण्डे योगचरिदेमुद्गलदक्षसंवादे योगामतार्थशास्त्रे योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ओम्